बृहद्रथम् च सरुषिः यथावत्प्रत्यनन्दत उपविष्टश्च ते नाथ अनुज्ञातो महात्मना तमपृच्छत्तदा विप्रह किमागमनमित्यथा पौरेरनुगतस्यैव पत्नीभ्याम् सहितस्य च स उवाच मुनिम् राज भगवन्नास्ति मे सुतः अपुत्रस्य वृथा जन्म इत्याहुर्मुनिसत्तमा हि राज्येन वृद्धत्वे किम् प्रयोजनम्